हरि ओम् श्री सीतारामचन्द्राभ्य अथ श्री अध्यात्मरामायणे युद्धकाण्डे द्वादश सर्गः श्रीमहादेव उवाच रामो विभीषणं दृष्ट्वा हनुमन्तं तथाङ्गदम् लक्ष्मणं कपिराजं च जाम्बवन्तं तथा परां परितुष्टे न मनसा सर्वान् एवाब्रवीद्वचहे भवताम् बाहुवीर्येण निहतो रावणो मया कीर्ति स्थास्यति वा पुण्य यावच्चन्द्र दिवाकरो कीर्तयिष्यन्ति भवताम् कथान्त्रैलोक्यपावनीम् मयोपेताम् कलिहराम् यास्यन्ति परमाम् गतिम् दृष्ट्वा रावणं पतितं भुवि मन्दोदरीमुखा सर्वा स्त्रियो रावणपालितः पतिता रावणस्याग्रे शोचन्त्य पर, पर्यदेवयन् विभीषण शुचोचार्थ शोकेन महता वृतः पतितो रावणस्याग्रे बहुधा पर्यदेवयत् रामस्तु लक्ष्मणं राहन् गोधयस्व विभीषणम् करोतु भ्रातृसंस्कारम् किं विलम्बेन मानद स्त्रियो मन्दोदरी मुख्या पतिता विलपन्ति च निवारयेतु ता सर्वा राक्षसी रावणप्रियः एवम् मुक्तोथ रामेण लक्ष्मणोगादिभीषणम् उवाच मृतकोपान्ते पतितम् मृतकोपमं शोकेन महताविष्टम् स्वमित्रैरिदमब्रवीत् यं शोचसि त्वं दुःखेन कोऽयं तव विभीषण संवाच्य कथमसृष्टे पुरेदाने मतः परम् यद्वत्तो यो घपतिता चिगिता यान्ति तद्वशाः संयुज्यन्ते वियुज्यन्ते तथा काल नेहनासु वैधाती नीं भूतेष भूता प्रेरित निश्य तम चेमे वनत तो्यालवशोद्भवा जन्म मृत्यु यदास्मत्माष्यत ईश्वर सर्वूता भूते सृजति हंतज देहे न देही नो देहो आत्मसुष्टैरस्वंत्रेक्ष देहोभिधाते यहां देव शाश्वत देश विभाग देह अविवेक नाम जन्मनाश क्षय वृद्धि क्रियाफल द्रष्टुरा भर्मा यथाग्ने दारुविक्रियः सैव देहसंयोगात् आत्मना भान्त्य सद्ग्रहात् यथा यथा तथा चान्यत् ध्यायतो सत् सदा गृहात् प्रसुप्तस्य नहम्भावात् तदा भाति न संस्कृतिः जीवतोऽपि तथा तद्वत् विमुक्तस्यानहम् कृते तस्मात् मनोधर्मम् जय हुंभम् ममता भ्रमम् रामभद्रे भगवति मनोधेहात्मविन्मनीश्वरे सर्वभूतात्मनि परे मायामानुषरूपिणी बाह्येन्द्रियार्थसम्बन्धात् त्याजयित्वा मनश्शनै तत्र दोषान् दर्शयित्वा रामानन्दिनि योजय देहबुद्ध्या भवेद् भ्राता पिता माता सुहृत प्रिय विलक्षण यदा देहांधु भ्रता माता पिता सुरुत, मिथ्या ध्यान वशा जाता दयस्दा, सदा शब्द विषय विविध बलम कोशो भृतवर्गो ज्यम् भूमिः सुतादयः अज्ञानजत्वा सर्वे ते क्षणसङ्गमभङ्गुरः अथोत्तिष्ठ रुदारामम् भावयन् भक्तिभावितम् अनुवर्त स्वराज्यादि भुञ्जन् प्रारब्धमन्वहम् भूतम्भवि चेद् भज वर्तमानम् अथाचरन् विहरस्व यथा भवदोषः न लिप्यसे आज्ञापयति रामस्ताम् यद्भ्रातु साम्परायिकम् यथा शास्त्रम् रुदति चापि योषितः निवारय महाबुद्धे लङ्काम् गच्छन्तु माचिरम् श्रुत्वा यथा वचनम् लक्ष्मणस्य विभीषणः त्यक्त्वा शोकम् च रामपार्श्वम् उपागमयत् विमृश्य बुद्ध्या धर्मद्यो धर्मार्थ सहितम् वचहे रामस्य वानुवृत्यर्थम् उत्तरम् पर्यभाषत दृशन्सम् अनृतम् क्रूरं। त्यक्त धर्म व्रतम् प्रभो नर्होस्मि देव संस्कर्तुम् परधाराभिमर्शिनम् श्रुत्वा तद्वचनम् प्रीतो रामो वचनम् मरणान्तानि वैराणि निवृत्तम् नः प्रयोजनम् क्रियतामस्य संस्कारो ममाप्येष यथा तव धृत्वा शीघ्रमेव विभीषणः सान्त्ववाक्यैर्महाबुद्धिम् राज्ञिम् मन्दोदरीम् धर्मात्मा धर्मबुद्धिर्विभीषणः तरयामास धर्मज्ञ संस्कारार्थं स्वबान्धवान् चित्याम् विधिवत् पितृमेध विधानतः आहिताग्नेर्यथा कार्यम् रावणस्य विभीषणः तथैव सर्वम् अकरोत् बन्धुभिः सह मन्त्रिभिः ददौ च पावकं तस्य विधियुक्तं विभीषणः स्नात्वा चैवाद्रवस्त्रेण तिलान्दर्भाभिमिश्रितान् उदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम् प्रदाय च उदकम् तस्मै मूर्ध्ना चयनं प्रणम्य च शास्त्रियोनुयामास शान्तमुक्त्वा पुनः पुनः गम्यतामिति सा सर्वा विवेशो नगरं तदा प्रविष्टासु सर्वासु राक्षसेषु विभीषणः रामपार्श्वम् अपागत्य तदा तिष्ठन् विनीतवत् पीस सैन्येन स सुग्रीवः स लक्ष्मणः हर्षं लेमे रिपुं हत्वा यथा वृत्रम् च द्रतुः मातलिश्च तदा रामम् परिक्रम्याभिवन्द्य च अनुज्ञात च रामेण विहायत ततो हृष्टमना रामो लक्ष्मणं चेदमब्रवीत् विभीचनाय मे लङ्का राजम् दत्तम् पुरहि लंका मध्ये विभीषणम् अभिषेचय विप्रै च मन्त्रवेद्विधिपूर्वकम् इत्युक्तो लक्ष्मणस्तूर्णम् जगामृत वानरे लङ्काम् सुवर्णकलशै समुद्रजलसंयुते अभिषेकम् शुभम् चक्रे राक्षसेन्द्रस्य धीमतः ततः पौरजने सार्धम् नानोपायनपाणिभिः विभीषण सौमित्री उपायन पुरस्कृतः दण्डप्रणामम् अकरोत् रामस्यक्लिश्च कर्मणः रामो विभीषणम् दृष्ट्वा प्राप्तराजम् उदान्वितः कृतकृत्यवात्मानम् अमन्यत सः अनुजः सुग्रीवम् च समालिङ्ग्य रामो वाक्यम् अथा ब्रवीत् साहाय्येन त्वया वीर जितो मे रावणो महन् विभीषणोऽपि लङ्कायाम् अभिषिक्तो मया नघ तत प्राह हनोमन्दम् पार्श्वर्थम् विनयान्वितम् विभीषणस्यानुमते गच्छ त्वम् रावणालयम् जानक्यै सर्वमाख्याहि रावणस्य वधादिकम् जानक्या प्रतिवाक्यम् मे शीघ्रम् बेव निवेदय एवम् वाज्ञापितो धीमान् रामेण पवनात्मजः प्रविवेश परिम् लङ्काम् पूज्यमानो निशाचरै प्रविश रावणगृहम् शिंशपामूलमाश्रिताम् ददर्श जानकीम् तत्र कृशाम् दीनामनिन्दिताम् राक्षसेभिः परिवृताम् जायन्तीं राम देवहि भूत्वा प्रणम्य पवनात्मजः कृताञ्जलिः पुटो भूत्वा प्रभुः भक्त्याग्रतः तं दृष्ट्वा जानकीम् तूष्णीम् श्रीत्वा पूर्वस्मृतिम् ययो ज्ञात्वा तम् रामदूतम् सा हर्षात् सौम्यमुखी स तां सौम्यः मुखीम् दृष्ट्वा तस्ते पवननन्दनः रामस्य भाषितम् सर्वम् आख्यातुम् उपचक्रमे देवी रामः स सुग्रीवो सहायवान् कुशली वानराणाम् च सैन्ये च स लक्ष्मणः रावणम् स हत्वा प्रबलम् सह मन्त्रिभिः राम्माह कुशलम् रामो राज्ये कृत्वा विभीचनम् श्रुत्वा भर्तुप्रियम् वाक्यम् हर्च गद्गदय गिर किं ते प्रियम् करोम्यद्य न पश्यामि जगत्त्रये वाक्यस्य रत्नान्याभरणानि च एवम् मुक्तस्य वैदेह प्रत्युवाच प्लवङ्गमः रत्नोभाविधाद्वापि देवराज्याद्विशेष्यते दे, हठयत्रुम् विजयिनम् रामं पश्यामि सुस्थिरम् तस्य तद्वचनम् श्रुत्वा मैथिली प्राह मारुतिम् सर्वे सौम्या गुणा सोम्य त्वय्येव परिनिष्ठितः रामं द्रक्ष्यामि शीघ्रम् माम् अज्ञापयतु राघवे तथेति ताम् नमस्कृत्य ययो द्रष्टुम् रघुत्तमम् जानक्या भाषितम् सर्वम् रामस्याग्रे न्यवेदयत् यन्निमित्तोऽयमारम्भ कर्मणाम् च फलोदयः तम् देवीम् शोकसन्तप्ताम् द्रष्टुमर्हसि मैथिलीम् एवम् मुक्तो हनुमता रामो ध्यानवताम्बरः मायासीताम् परित्यक्तुम् जानकी मनरेस्थिताम् आदातुम् मनसा ध्यात्वा रामप्राह विभीचणम् गच्छ राजन् जनकजाम् आनयाशु ममासिकम् स्नाताम् बिरजवस्त्राढ्याम् सर्वभरणभूषिताम् विभीचणोऽपि तच्छ्रुत्वा जगाम सह मारुतिः राक्षसीभिः सुवृद्धाभिः स्नापयित्वा तु मैथिलीम् सर्वभरणसम्पन्नाम् आरोप्य शिबिकोत्तमे याचिकै बहुभिम् कञ्चको स्नेहीशिभिः शुभां तान् द्रष्टुमागता सर्वे वानरजनकात्मजां तान् वारयन्तु भव सर्वत्र वेतृपाणयः कोलाहलं प्रकुर्वन्तु रामपार्श्वमुपाययुः दृष्ट्वा तां शिबिकारूढां दूराध रघुत्तम विवेचन किमर्थं ते वानरान् वारयन्ति पश्यन्तु वानरा सर्वे मैथिलीम् आसरं यथा पादचारेण सा यातु जानकी मम सन्निधिम् श्रुत्वा तद् रामवचनम् शिबिकादवरुह्यता पादचारेण शनकैः आगता रामसन्निधिम् रामोऽपि दृष्ट्वा तामाय सीतां कार्यार्थनिर्मिताम् अवाच्यवादान् बहुशः प्रहेतां रघुनन्दनः अमृष्यमाणा सा सीता वचनं राघवोदितं लक्ष्मणं प्राहमे शीघ्रं प्रज्वालयहुताशनम् विश्वासाहं हि रामस्य लोकानां प्रत्ययत् राघवस्य मतं ज्ञात्वा महाकाश्चयं कृत्वा जालयित्वा हुताशनं रामपाश्व तथा सीता परिक्रम्य राघवं भक्तिसंयुता पश्यतां सर्वलोकानां देव राक्षसयोषितां प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली बद्धाञ्जलि पुटाचेदम् ग्नि समीपग यथा मे हृदयं नित्यम् नापसर्पतिराघवत् तथा लोकस्य साक्षी मां सर्वतः पातु पावकः एवम् तदासीता परिक्रम्य हुताशनं विवेश जलं जलनं दीप्तम् निर्भयेन हृदा सती दृष्ट्वा ततो भूतगणात् सिद्धा ह्निकताम् पृशाता परस्परम् प्राहुरहोसीताम् रामश्रियम् स्वाम् पक्कथम त्यजन् इति श्रीमदध्यासरामायणयो मामैजवादे युद्धकाण्डे द्वादशसर्ग श्रीसीतारामचन्द्रार्पणमस्तु